तावत्सर्वाभिसारेण पुरमेतद्विनाश्यताम् एतदत्र परं मन्ये प्राप्तकालं न रर्षभाः वैशम्पायन उवाच शकुनिर्वचनम् श्रुत्वा भाषमाणस्य दुर्मतेः सौमदतिरिदं वाक्यं जगाद ततः सौमदत्तिरुवाच प्रकृतिः सप्त वै आत्मनश्च परस्य तथा देशं च कालं च षड्विधांश्च नयेद्गुणान् स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमं समीक्ष्यथाभियुञ्जीत परं व्यसनपीडितम् ततोहं पाण्डवान् मन्ये मित्रकोशसमन्वितान् बलस्थान् विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् वपुषाहितुभूतानाम् नेत्राणि हृदयानि श्रोत्रम् मधुरयावाच रमयत्यर्जुनो नृणाम् न तु केवलदैवेन भेजिरे यद्बभूव मनःकान्तम् न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियं भाषितं चारुभाषस्य जज्ञेपार्थस्य भारती तानेवं गुणसम्पन्नान् सम्पन्नान् राजलक्षणैः न पश्यामि ये समुच्छेतुं यथा बलात् प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला तथैवोत्साहशक्तिश्च पार्थेष्वभ्यधिका सदा मौलमित्रबलानाम् च कालज्ञो वै युधिष्ठिरः साम्नादानेन भेदेना दण्डेनेति युधिष्ठिरः अमित्रम् यतते जेतुम् न परिक्रीय धनैः शत्रून् मित्राणि च बलानि च मूलं च सुदृढम् कृत्वा हन्त्यरीन अशक्यान् अशक्यान देवैरपि स वासवैः येषामर्थे सदा युक्तौ कृष्णसङ्कर्षणाबुभौ श्रेयश्च यदि मन्यध्वम् मन्मतं यदि वो मतं संविदम् पाण्डवैः सार्धम् कृत्वायाम